Oh ीवधे दीर्घा हिपायवर्तधवोस्पसि गंसीर्देवश्रुरेता हिप्रवपे स्वस्त्युत्तराणि धा अधिवत्रो मयि धेरिवृत्तस्य घनेनिकासिष्वाधिचक्षुर्मे पाप्रदिष्ट्वा पुनाद् वाक्प्रदिष्ट्वा पुनादुदेवस्त्वा दविता पुना त्वच्छिद्रेण पवित्रेण सूर्यस्य रस्ति वृत्तस्य दे पवित्रपदे पवित्रेण यस्मेकं पुनेयच्छगे यमावो देवादये महे तस्य धर्वाणोऽ यद्वो देवास आगुरे यज्ञियासो वामह इन्द्राग्ने द्यावापृथिवी आपवोषधे स्तन् देक्षाणामधिपतिरसे हा सन्तम् पाहे आगोत्यै प्रियुजेज्ञय स्वाहा मेधायै मनसे ज्ञय स्वाहा दीक्षायै तपसे ज्ञय स्वाहा सरस्वत्यैकोष्णेऽज्ञय स्वाहापो देवैर्बृहतेर्विश्वसम्भुव्यावापृथिवी भुर्वन्तलक्षं बृहस्पदन्न हविषावृधातु स्वाहा विश्वे देवस्य ने धर्मत्वणीतसख्यं विश्वे ुम्नं वृणीत पुष्यते स्वाहसावयो शिल्पे शस्त्रे वा रभेदे वा पादमास्य यज्ञस्योदृजि मान्धिक्षमाणस्तरेतुं दक्षं वरुणजगुं शशाधिजयाधि विश्वादुरितातरे वसुधर्वाणवधिरावगुं रुषे मूर्गस्याङ्गिरस्योर्णं व्रदा मोर्जं मे यच्छ ष्णाः शर्माधि शर्म यदमानस्य शर्म मे यच्छ नक्षत्राणाम् मादेकाशः पाहेन्द्रस्य योनिरधि मा पाहि गंसे कृष्ये त्वा तु तस्यारेतवेस्तौषधेभ्यस्तोपस्था देवो वनस्पतिरोर्ध्वो वा स्वाहा रभे दैवीन्द्रियम् वनामहे सुमृणी कामभिष्टमेवोधान्यज्ञवाहतगुंसुपादानो असद्वशे एवामनो जाता मनो युजः सुदक्षादक्षपितारस्तेन पान्तु तेनो वन्तुते भ्यो नमस्ते भस्माग्नेकुम् सुरारिभयगुम् सुवन्दिोपायन स्वस्तये प्रबुधेन पुनर्दः समाग्ने प्रतपासि देवामर्त्येष्म संयज्ञेष्मेभ्यः श्वे देवाभिमावृन्दन् पोषा सन्न्यासो मो राधता देवः स्ववितावसोपसुदा पारास्वेयत्सो मा भोज भरवा पुरन्पोर्त्या विराधिमा हमायुषा चन्द्रमधि मम भोगाय भव वस्त्रमधि मम भोगाय यवे त्वा वरुणाय त्वा निर्त्ये त्वा रुद्राय त्वा देवी न्मजिन्तमस्तम् भोमावक्रमिषमच्छिन्मन्तम् त्वम् पृथिव्या अनुगेशम् भद्रादभिश्वेजः प्रे बृहस्पतिः पुर एता ते अस्पक्षेमवस्य वदा पृथिव्या आदेशत्रोर सर्वभेदवगन्मदेव यजतम् पृथिव्या विश्वे देवा यजजुषन्तपूर्वरिक्सामाभ्याम् यजुषा सन्तयन्तो राजस्पोषेण समिषामदेमा यन्ते शुक्रणो हृदम् वर्चस्तजातम् भवभ्राजम् गर्छजोरतिभृता मनसाजुष्टा विष्णवेतस्या प्रथमे वाचो यन्त्रमसि यस्वाः शुक्रमस्य मृतमसि वैश्वदेवगमहविः सौर्यस्य चक्षुरारुहमग्ने रक्षणकणे निजेत स भीयसे भ्राजमानो विपश्चिताधिरधि मनासिधेरधि दक्षिणादि यज्ञयाज क्षत्रिया शरीरस्य भगतशेष्मेता न सुप्राचेशप्रदे सम्भव मित्रस्त्वा प्रतिबद्धा तुन्द्रायाध्यक्षा जानत्वा माता पण्डिता मम पिताय भ्राताो न सखासयो शादेवी देवमच्चेकेन्द्रायथो मगम् रुद्रस्त्वा वर्तयतु मित्रस्य पथा स्वस्ति सोऽपदखा पुनरेहित हरय्या अहं रुद्रास्यतिरस्यादित्यासि शुक्रासि गन्दादि बृहस्पति स्वान्वतु रुद्रावधुभिराजिकेतु पृथिव्या स्वामूर्धन्नादिघर्मि वयजन्याः पदे स्वाहा परिलिखितम् रक्षः परिलिखिता अराधय इदमहुं रक्षसो देवा अपि ग्रन्था विजयोस्मान् रायस्त्वे रायस्त्वते रायः सन्ते वि देव्योर्वश्यापश्यस्वत्पष्टे मति ते तपेज सुलेतारेतो दधानाभीयम् विधेयतपसन्त अगुंशुदा ते गंशप्रच्यताम् परुषा परुर्गन्धस्ते काममवधमदात्योऽशि शुक्रस्ते ग्रहाभिर्यम् देवगुंसवितारमोऽ कविः मर्चामि सत्यसवदुं प्रधामभिप्रिय मनिमोयस्यापदेर्वा अधिभ्युलक्षगे मनिरन्यपानिरविमेत सकृतकृपा सुः प्रजाभ्यस्त्वा प्राणायत्वा ज्ञानायत्वा प्रजास्तमः प्राणेः प्रजास्त्वामः प्राणन्तो सोमन्द्रे क्रीणाम्योर्जस्वन्दम वयस्पन्दम् वीर्यावन्तमहिमादिशाहकम् शुक्रन्द्रे शुक्रेण क्रीणामि चन्द्रम् चन्द्रेणामुतममुतेन सम्यत्रे गोरस्मे चन्द्राणि तपदस्तनोरज प्रजापतेर्वर्णस्तस्यास्ते सहस्तपोण पुष्यण्डामेण वधुराक्रीणाम्यस्मै देवम् धर्मयि देवायश्रयन्तामस्ते मे ज्योज सोम विक्रयिणे तमो मित्रो ने हि सुमित्रधायिन्द्रस्यो माविष दक्षिणमुशन्सन्तज्ञस्यो नस्योऽनग्रस्वानभ्राजाभारेऽम्भारे हस्त सुभस्तवृषाने सोमक्रयण्रक्षद्वम् मा वदभन् उदायुषा स्वायुषो दोषधेदाजुम् रथेन पर्ण्यस्य नोदस्थामृता कुर्वन्तरिक्षमन् वृक्ष्यदित्या सदा सदित्या सदासीतास्तभ्रा अन्तरिक्षमीतम् पृथिव्या आसीत् विश्वा भुवनानि सम्भ्रा विश्वेतानि वरुणस्य व्रता वने श्रव्यन्तरिक्षन्तो व्यवदधात् स्वमभद्रा उधिक्यञ्जातवे दधन् देवम् केतवः यसूर्यम् उस्रावेतम् धोरुटाः वरश्रू अबीरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनमति वरुणस्य स्कम्भदज्जनमति प्रत्यस्तो वरुणस्य पाशः त्यवस्त्वभुवस्त्वश्वान्यमात्वा परिपदेऽपि जन्मा त्वारिपन्थिनापि धन्मा त्वामृताघाय वो मागन्धर्वा विश्वावसुराधच्छेना भूत्वा परापदयजमानस्य न गृहे देवैः सगस्कृतं यजमानस्य स्वस्त्यजन्यस्य वि पन्थामने संयेन विश्वा वृणत्यविन्दो मित्रस्य वरुणस्य चक्षसे महो देवाय न शतकंस पर्यदूरदृशे देवजाताय केतवे दिवस्पुत्राय सौर्यायषगुंशतवरुणस्य स्तम्भनमसि वरुणस्य स्तम्भरद्जनमस्य उन्मुक्तो वरुणस्य वासः अग्नेरादित्यवधि विष्णवेत्त्वादोमस्यादित्यवधि विष्णवे त्वादिचेरादिक्ष्यवधि विष्णवे त्वाग्नेत्त्वादाय स्पोषका विण् विष्णवेत्त्वाश्येनाय त्वादोमधुरे विष्णवेत्त्वायादे धामानि हविषा यजन्ति कादे विश्वा परिभोरस्तु यज्ञङ्गयस्फारः प्रतरणस्तु वीरो वीरः ्रतो वा रुणमतिशय्या देवानागुं सख्यान् वा देवानामपशच्चिष्मस्यापदये त्वा गृह्णामि मे दीक्षा दीक्षापतिर्मान्यतामनुतपस्तपस्पतिरञ्जसा सत्यमुपगेतकम् पुंसुरपुं सु देव सोमाप्यायतामिन्द्रायै कथनमिधातुभ्यमिन्द्रप्यायतामा त्वमिन्द्राय प्यायस्वाप्याययसखे संज्ञा मेधया स्विते देव सोम सुत्यामशि यष्टाराय प्रे दे भगाय प्रवृतमादभ्यो नमो दिवे नमः पृथिव्याग्ने व्रतपदे त्वं व्रतानाम् व्रतपदे ो रे यादवतनोर्यगुंसामयिषहनो व्रतपतिनार्व्रता जाते अग्ने रुद्रिया तनोपाहि तस्याः त्रे स्वाहा याते अग्नेयाशया रजाशया हराशया तनोर्वरि कृपरेष्ठाग्रम्ब च अपावधे द्वेषम्ब च अपावधे स्वाहा आह <sweak> विप्राय नेमे श्रिप्राय नेमेऽस्यवतान्मानाधितमवतान्नाव्यं विधेरग्निर्नभो नामाग्नेऽङ्गिरोस्याम् पृथिव्यामस्यायुषाणाम् न ह्रियत्तेना धृष्टन्नाम यज्ञत्वादधेऽग्ने अङ्गिरो यज्ञा ध्रुवादिदेवस्वेन्द्रघोषस्त्वावध्य पुरस्तापादमनोजवास्वामिर्दक्षिणदः पाद प्रदेतास्त्वारुद्रे पश्चात्पाद विश्वकर्मा त्वादित्यैरुत्तरदपाद श्री गुम्भीरसितमत्नसाये स्वा स्वाहा जिगुम्भेरतिगु प्रजा वने स्वाहा जिगुम्भेरतिरागस्फोटवस्वाह जिगुम्भेरस्यादित्यवने स्वाहा जिगुम्भेरस्या वह देवान् देवयते यजमानाय स्वाहा भूते दृग्म् हृवक्षिरक्षन्दरक्षन्द्रगम्हाग्नेभस्वास्यग्ने पुरे शमति इञ्जदेवनभुतयुञ्जदेप्रा विप्रस्य बृहतो विभष्टितः वित्रादेवयुनाविदेवैन्मही देवस्य दवितः परिष्कृतिः सुभागेवदुर्यागम् आपतदेव श्रुतो देवेष्वाघो येथावानो वेदो जायनाम् कर्म्यायगम् सर्वे न दैवामयो बहू नाम सद्वशी ्रमे त्रेधानिदधे पदम् देनुमति समूढमस्य वागुम् सुरचिरापतीथे नवदेभूतगुम् भूयसि यस्क भ्राग्धारपृथिवीमभितो मयूखै ये प्रयतमद्भरम् कल्पयन्ति ओर्द्वम् यज्ञम् प्रयतम् मारे पृथिव्याधिवो वा विष्णभुत वा पृथिव्या महो वा विष्णुभुत वान्तरिक्षाध्यस्त पुनस्तवसव्येया प्रयच्छदक्षिणादो दशव्या गम्बेर्यानि प्रमोजञ्जः पार्थिवारिमिवमे रजागुम् श्रियास्त्रभादुत्तरगुम् तजस्थम् विचक्रवालस्त्रेधोरुगायो विष्णो रराटमधिविष्णा पृष्ठमधिविष्णोष्णत्रेस्थ विष्णो स्योरधिविष्णा द्रुरमधि वैष्णवमधि विष्णवे त्वा ृथिचिह्नपृथे न्याधिराजेवामपादुविभेन न प्रथिविन्द्रो नानास्तादिध्यरक्षतस्तपिष्ठैः भ्रमास आश्रुजापदन्त्यनुस्पृशतासोऽशुजानः तमोगस्ये जक्त्वापङ्गानसृजविश्वगुल्काः प्रतिस्पशो विषजतोऽतमो भवायुर्विशो अस्यालब्धः यो नो दूरे असुम् सोऽयोगश्च व्यधिराष्ठप्रत्यादनुष्मण्यमित्रागम् वोषराच्यग्महेते यो नाराजकम् सविधानशक्ते नेचादम् दक्षम् प्रतिविध्याद्यस्पदामिष्णुणष्पदेव्यान्ये अपस्थिरातमहितृजूनामजामिशत्रोन् जा तदेजानातिष्ठलि ब्रह्मणे दातुमैरत् विश्वस्मे सुलिनानि राजोद्युम्नान्यो विदो अभिद्योत् स्तु सुभगः सुतार्यस्वानित्येन हविधाय मुग्धैः पिप्प्रेषति स्वायुषुरो विश्वेदस्मै सुनाशादृष्टिः अर्जाविषे तु अन्यङ्घाक्षर्वाक्षन्ते वाता जलताभियङ्गेः श्वा सुरथा मर्जये मास्मै क्षत्राणि धारेरद्योन् ु हिरण्यो अग्न उपयादि तस्य त्राता भवस्य सखायस्थिष्यमारुढग्जोषते महारुजाविबन्धुतावजाभिस्तन्मा विदर्गौतमातन्विजाय तन्न अस्य वदत्यधिरोदरिजविष्टदुक्रतोदमूनाः अश्वप्रयस्तयः सुषेवातङ्गादो विताश्रमिष्ठाः ते वायवस्वध्रियम् जो विषर्द्या ज्ञेतवनःपान्तमूना ये पायवो वाम देयन्ते अन्ये पश्यन्तो अन्धन्तु हितादरक्षन् रक्षताम् श्रुतो विश्ववे राजिप्सन् दरिद्रिपवो नासदेभुः पया वयगुंसन्न्यस्तो दास्तवप्रणेयेत्यस्यासगुंसा सूचय सत्यता तेन अयाते अग्ने समिधा विधेमप्रतिस्तोमगुम् शस्यमानम् ग्रभाय न हाशसो रक्षतः पाक्यस्मान् द्रुवो निदो मित्रमहो अवद्यात् रक्षोहणम् वाजिनमाजिघर्म वित्रम् प्रतिष्ठमुपयाभिशर्मा सुशालाग्निकृभिः समिद्धनोतिवातरिणः पादुनक्तम् विज्योतिरामृगता भाद्यग्निराविर्विश्वानिगणुते महित्वा प्रा देवेऽर्मायाः सहते दुरे वा शी दे शृङ्गे रक्षते विनक्षे पुरस्वानादो द्विदन्त्वग्नेऽस्तिमायुधा रक्षते हन्त वावु मदे जिलस्य प्रदुध्यवनन्ते